गोपुराट्टालकैरुच्चैरुपकल्पशतैरपि गुप्तम् पुरवरश्रेष्ठम् एतदद्भिश्च सम्रतं। तृणधान्येन्धनरसैस्तथा यन्त्रायुधौषधैः युक्तम् बहुकपाटैश्च द्रव्यागारतुषादितैः भीमोच्छ्रितमहाचक्रम् बृहदट्टालसंव्रतम् दृढ़ाकारूहम शतघ्नील संवृतार वो वक्रो मनुष्चे स्मृत प्राकारकर्तृभवी गर्भस्तूजि तदेतर गर्भेण पांडरेण विराजते सालेनानेकतालेन सर्वतः संवृतम् पुरम् अनुरक्ताः प्रकृतयो द्रुपदस्य महात्मनः दानमानार्चिताः सर्वे बाह्याश्चाभ्यन्तराश्च ये प्रतिरुद्धानिमाञ्ज्ञात्वा राजभिर्भीमविक्रमैः उपयास्यन्ति दाशार्हाः समुदग्रोच्छ्रिता तस्मात् सन्धिं वयम् कृत्वा धार्तराष्ट्रस्य पाण्डवैः स्वराष्ट्रमेव गच्छामो यद्याप्तवचनं मम एतन्ममतं सर्वैः क्रियतां यदि रोचते एतद्धि सुकृतम् मन्ये क्षेमम् चापि महीक्षिताम् वृत्ते स्वय राजे यहात विप्रजग्म विदि पांडवान्ता अथ दुर्योधन राज विमना भ्रातृ सह अश्वत्था न कर्णे चुपेण च विनिवृत्तो व्रतं दृष्ट्वा द्रौपद्याश्वेतवाहनम् तं तु दुःशासनो व्रीडन् मन्दं मन्दमिव यद्यसौ ब्राह्मणो न स्याद् विन्देतद्रौपदीं न सह न दैवं च परमम् मन्ये पौरुषम् चाप्यनर्थकम् धिगस्तु पौरुषम् ताता ध्रियन्ते यत्र पाण्डवाः एवम् सम्भाषमाणास्ते निन्दन्तश्च पुरोचनम् विविशुर्हास्ति न त्रस्ता विगतसङ्कल्पा दृष्ट्वा पार्थान्महोजसः मुक्तान् हव्यभुजश्चैव संयुक्तान् द्रुपदेन च धृष्टद्युम्नं तु सञ्चिन्त्य तथैव च शिखण्डिनम् द्रुपदस्यात्मजांश्चान्यान् सर्वयुद्धविशारदान् विदुरस्त्वततां श्रुत्वा द्रौपदीं पाण्डवैर्वृतान् व्रीडितान् धातराष्ट्रांश्च भग्नदर्पानुपागतान् ततः प्रीतमनाः क्षक्ता धृतराष्ट्रं विशाम्पते उवाच तिष्ट्या कुरवो वर्धन्त इति विस्मितः वैचित्रवीर्यस्तु वचो निशम्य विदुरस्य तत् अब्रवीत्परमप्रीतो दिष्ट्यादिष्ट्येति भारत मन्यते सवृतं पुत्रम् ज्येष्ठम् ध्रुपदकन्यया दुर्योधनमविज्ञानात् प्रज्ञा चक्षुर्नरेश्वरः